दैवमेव परम् मन्ये निरर्थकम् दृष्ट्वा कुन्तीसुते शुद्धाम् श्रियन्तामहताम् तथा कृतो यत्नो मया पूर्वम् विनाशे तस्य सौबल तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव तेन दैवं परम् मन्ये निरर्थकम् धार्तराष्ट्राश्च ह्रियन्ते पार्था नित्यशः सोऽहम् श्रियञ्च दृष्ट्वा सभाम् ताम् च तथाविधाम् रक्षिभिश्चावहासन्तम् परितप्ये यथाग्निना समामभ्यनुजानीहि मातुलाद्य सुदुःखितम् अमर्षम् च समाविष्टं धृतराष्ट्रे निवेदय इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे सप्तचत्वारिंशोऽध्यायः